समध्वरायोषसो न मं ददधि क्राेव शुचयेपदाया अर्वाचीनं वासुविदं भगन्नो रथमिवाश्वा वायिन आवहन्तु स मध्वरायोषसो न मं क्रावसुचये॒ पदाया अर्वाचीनं वसुविदं भगन् नो रथमिवाश्वा वाजिन आ वहन्तु समध्व॒रायोषसो न मं ददधिक्रावेवसुचये पदाया ارباعينم واسويدم حقم اورثمي واسواجنا اوہمتو